चाणक्यनीति अध्यायम् सिक्स् श्रुत्वा धर्मम् विजानादि श्रुत्वा त्यजति दुर्मतिम् श्रुत्वा ज्ञानमवाप्नोति श्रुत्वा मोक्षमवाप्नुयात् पक्षिणः काकश्चन्दालः चैव कुक्कुरः मुनीनां पापश्चण्डालः सर्वचाण्डालनिन्दकः भस्मनाशुद्ध्यते कास्यं ताम्रमम्रेन ना शुद्ध्यति नारी नदी वेगेन शुद्ध्यति सम्पूज्यते द्विजः भ्रमन् सम्पूज्यते योगी स्त्रीभ्रमन्दी विनश्यति यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः यस्यार्थास्स पुमाल्लोके यस्यार्था स पण्डितः तादृशी जायते बुद्धिव्यवसाद सहायास्तादृशी भवित कालपचति काल प्रजा कालुते सुजागर्ति कालो हि दुदि क्रमः न पश्यति च जन्मान्धकामान्धो नैव पश्यति मदोन्मत्ता न पश्यन्ति अर्द्धीतोषं न स्वयं कर्म करोत्यात्मा स्वयं तत्फलमश्नुते स्वयं भ्रमदि संसारे स्वयम् तस्माद् विमुच्यते राजाराष्ट्रकृतम् पापम् राज्ञ पापम् पुरोहितः भर्ता च स्त्रीकृतम् पापम् शिष्य पापम् गुरुस्तथा ऋणकर्तापि दा शत्रुर्मादा च व्यभिचारिणी भार्याजोपवदी शत्रुपुत्रशत्रुरपण्डितः लुब्धमर्धेन गृह्णीयास्तब्धमञ्चलिकर्मणा मूर्खम् छन्दोनुवृत्त्या च यथार्धत्वेन पण्डितम् परं न राज्यं न कुराजराज्यं परं न मित्रं न वरं न शिष्यो न कुशिष्यशिष्यो वरं न दारानदारः कुराजराज्येन कुतः प्रजासुखं कुमित्रमित्रेण कुतोऽभिनिर्वृतिः कुदारदारैश्च कुतो गृहे रतिः कुशिष्य शिष्यमध्या पयधुदो यशः सिंहादेकम् बपादेकं शिक्षे चत्वारि कुक्कुडाद वा यस्यात् पञ्च कार्यमल्पं वा यन्नरः कर्तुमिच्छति सर्वारम्भेण सिंहादेकम् प्रचक्षते इन्द्रियाणि च संयम्य रागद्वेषविवर्जितः समदुःख प्रत्युत्थानं च युद्धं च संविभागं च बन्धुषु स्वयमाक्रम्यभुक्तम् च शिक्षे चत्वारि कुक्कुडात् गूढमैथुनचारित्वम् काले काले च सङ्ग्रहम् अप्रमत्तमविश्वासं पञ्च शिक्षेच्च च वायसात् बह्वाशी स्वल्पसन्तुष्टः स निद्रो लघुचेतनः स्वामि भक्तश्च शूरश्च षडेदे स्वनतो गुणाः शुश्रान्तोऽपि वहेद्भारं शीतोष्णं न च शरदे नित्यम् त्रीणि शिक्षे च गर्दभाविंशति गुणानाचरिष्यति मानवः कार्यावस्थासु सर्वासु अजे यस्स भविष्यति ॐ